अथ सप्तनवतितमः सर्गः सुसंरब्धम् तु भरतम् लक्ष्मणम् क्रोधमूर्च्छितम् रामस्तु परिसाम् वचनं चेदमब्रवीत् किमत्र धनुषा कार्यमसि नावासचर्मणा महाबले महोत्साहे भरते स्वयमागते पितुः सत्यम् प्रतिश्रुत्य हत्वा भरतमाहवे किम् करिष्यामि राज्येन सापवादेन लक्ष्मणा यद्रव्यम् बान्धवानाम् वा बा मित्राणाम् वा क्षये भवेत् नाहम् तत्प्रति गृह्णीयाम् भक्ष्यान् विषकृतानि वा धर्ममर्थम् च कामम् च पृथिवीम् चापि लक्ष्मण इच्छामि भवतामर्थे एतत् प्रति शृणोमि ते भ्रातॄणाम् सङ्ग्रहार्थम् च राज्यमप्यहमिच्छामि सत्येनायुधमालभे नेयम् मम मही सौम्य दुर्लभा सागराम्बरा न हीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मणा यद्विना भरतम् त्वाम् च भवेन्मम सुखम् किञ्चिद् भस्म मम प्राणैः प्रियतरः कुलधर्ममनुस्मरन् श्रुत्वा प्रव्राजितम् माम् हि जटावल्कलधारिणम् जानक्या सहितम् वीरत्वया च पुरुषोत्तमा स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गतः अम्बाम् च केकयी मृष्यभरतश्चाप्रियम् वदन् प्रसाद्यपितरम् श्रीमान राज्यम् मे दातुमागतः प्राप्तकालम् भरतो द्रष्टुमर्हति अस्मासु मनसाप्येष नाहितम् किञ्चिदाचरेत् विप्रियम् कृतपूर्वम् ते भरतेन कदा नु किम् ईदृशम् वा भयम् तेऽद्य भरतम् यद्विषङ्कसे न वचः अहम् ह्यप्रियमुक्तस्याम् भरतस्या प्रिये कृते कथम् न पुत्राः पितरम् हन्यः कस्याञ्चिदापदि भ्राता वा भ्रातरम् हन्यात् सौमित्रे प्राणमात्मनः यदि राज्यस्य हेतोस्त्वमिमाम् वाचम् प्रभाषसे वक्ष्यामि भरतम् दृष्ट्वा राज्यमस्मै प्रलीयताम् उच्यमानो हि भरतो मया लक्ष्मणतद्वचः राज्यमस्मै प्रयच्छेति बाढमित्येवमंस्यते तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया तद्वाक्यम् लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाचः त्वाम् मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् व्रीडितम् दृष्ट्वा राघवः प्रत्युवाचः एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः अथ वा सुखोचितौ वनवासमनुध्याय गृहाय प्रतिनेष्यति इमाम् चाप्येष वैदेहीमत्यन्तसुखसेविनीम् पिता मे राघवः श्रीमान् वनादाय यास्यति गोत्रवन्तौ मनोरमौ वायुवेगसमौ वीरौ जवनौ तु रगोत्तमौ स एष सुमहाकायः कम्पते वाहिनीमुखे नागः शत्रुञ्जयो नाम वृद्धस्ता तस्य धीमतः न तु पश्यामि तच्छत्रम् पाण्डुरम् महाभागसंशयो भवतीहमे वृक्षाग्रादवरोह त्वम् वरामो धर्मात्मा सौमिवाच अवतीर्यतु साग्रा तस्ति जयर लक्ष्मण प्राजलिभू्वा तस्थौ रा भरते ना सन्दिष्टा सर्दो न भवंताइल सेकयत अध्यक्श्वाकुचर्योजनम पर्वत स्य पार्श्वेऽन्यविशदा वृत्ते गजबाजि नराकुला सा चित्रकूटे भरते लसेना धर्मम् पुरस्कृत्य विधूय दर्पम् प्रसादनार्थम् रघुनन्दनस्य विरोचते नीतिमता प्रणीता इत्यार्षे श्रीमद् रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तनवतितमः सर्गः